श्रीगङ्गासहस्रनामस्तोत्रं स्कन्दपुराणान्तर्गतम् अगस्त्य उवाच विना स्नानेन गङ्गायां नृणां जन्मनिरर्थकम् उपायान्तरमस्त्यन्येन स्नानफलं लभेद् अशक्तानां च पङ्गूनामालस्योपहदात्मनां दूरदेशान्तरस्थानां गङ्गास्नानं कथं भवेद् दानं वाधव्रतं वाध मन्द्रस्तोत्रं जपोध वा तीर्थान्दराभिषेको वा देवदोपासनं तु वा यद्यस्ति किञ्चित् षड्वक्त्र गङ्गास्नानफलप्रदं विधानान्तरमात्रेण तद्वदप्रणदाय मे त्वत्तो न वेदस्कन्धान्यो गङ्गागर्भसमुद्भव परं स्वर्गतरङ्गिण्यां महिमानं महामदे स्कन्द उवाच सन्धिपुण्यजलानीह सरांसि सरिदो मुने स्थाने, स्थाने तीर्थानि जिदात्माध्युषितानि च दृष्टप्रत्ययकारीणि परं स्वर्गतरं गिण्यात् कोट्यंशोऽपि न तत्र वै अनेनैवानुमानेन बुद्ध्यस्वकलशोद्भव दध्रे गङ्गोत्तमाङ्गेन देवदेवेन शम्भुना स्नानकालेऽन्यतीर्थेषु जप्यदे जाह्नवीजनैः विना विष्णुपदीम् क्वन्यत् समर्थमखमोचने गङ्गास्नानफलं ब्रह्मन् गङ्गायामेव लभ्यते यथा द्राक्षाफलस्वादो द्राक्षायामेव नान्यतः अस्त्युपाय इहत्वे विकलं फलम् स्ना से दिद महा गुह्यतमो मु शिवक्ताय शा विषु भक्तिपराय चालेस्ति गर्भवास मुक्ष कथनीयमं न्य कचि कनचि क्वचिद इदं रहस्यं परमं महापातकनाशनम् महाश्रेयस्करं पुण्यं मनोरथकरं परं द्युनदीप्रीतिजनकम् शिवसन्तोषसन्ततिः नाम्नां सहस्रं गङ्गायास्तव राजेषु शोभनं जप्यानां परमं जप्यम् वेदोपनिषदां समम् जपनीयं प्रयत्नेन मौनिना वाचकं विना शुचिस्थानेषु शुचिना सुस्पष्टाक्षरमेव ध्यानं शैलेन्द्रादवतारिणी निज जले मज्जनोत्तारिणि विहारिणीभ्रेणी समुत्सारिणी शाखेरुकारिणी हर शिरो वल्लीदिणी काशी प्रादिहिणी विजये गंगा मनोहारिणी ॐ नमो गङ्गादेव्यै ओङ्काररूपिण्यजरातुलानन्दामृतस्रव अत्युदाराभयाशोकालकनन्दामृदामला अनाथवत्सला मोखा पाम्ब्यो निरमृतप्रदा पराजिता, अनिमादि अव्यक्तक्षणाक्षोभ्यान विराजिद अनाधनाथाभसीदानर्धि अणिमागुणाधाराग्रगण्यािणी अचिंतरनखाभुत हिणी अद्रिराजसुताष्ठाङ्गयोगसिद्धिप्रदाच्युता अक्षुण्णशक्तिरसुदानन्दतीर्थामृदोदका अनन्दमहिमापारानन्दसौख्यप्रदानदा अशेषदेवता मूर्तिरघोरामृदरूपिणी अविद्याजालशमनीह्यप्रतर्क्य गतिप्रदा अशेषविघ्न संहर्त्री त्वशेष गुणगुम्फिता अज्ञानतिमिरज्योतिरनुग्रहपरायणा अभिरामानवद्याङ्ग्यनन्दसारा कलङ्गिनी आरोग्यदानन्दवल्ली त्वापन्नार्थिविनाशिनी आश्चर्यमूर्तिरायुष्यास्याढ्याद्याप्रार्यसेविता आप्यायिन्याप्तविद्याख्यात्वानन्दाश्वासदायिनी आलस्यग्न्या पदं हन्द्री ह्यानन्दामृतवर्षिणी इरावतिष्ठदात्रिष्ठा फलप्रदा इतिहा शुभप्रदा युज्याशील समिज्येष्ठा त्विन्द्रादि परिवन्दिता इलालङ्कारमालेधा त्विन्दिरारम्य मन्दिरा इदिन्दिरादिसंसेव्या ीश्वरीश्वरवल्लभा ईदिभीदिहरेड्या चत्विडनीयचरित्रभृद उत्कृष्ट शक्तिरुत्कृष्टोऽडुपमण्डलचारिणि उदिताम्बरमार्गोऽस्रोरगलोकविहारिणि उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा उदन्वत्पूर्ति हे ऊर्ध्वे गग्न्युष्णशमनी ह्युष्णरश्मिसुता प्रिया उत्पत्तिस्थितिसंहारकारिण्युपचारिणी ऊर्जं वहन्त्यूर्जधरोर्जावदी चोर्मिमालिनी ऊर्ध्व रेधप्रियोर्ध्वाध्वा ह्योर्मिलोर्ध्वगतिप्रदा ऋषिवृन्दस्तुतर्धिश्च ऋणत्रयविनाशिनी हृदम्भरर्धिदात्री च ऋक्स्वरूपा ऋजुप्रिया ऋक्षमार्गवहर्षार्चेर्यजुमार्गप्रदर्शिनी यधिता किलधर्मार्थात्त्वे कैकामृददायिनी ये धनीयस्वभावैज्या त्वे जिता शेषपादका ऐश्वर्यदैश्वर्यरूपा ह्यैधिह्यं श्याई ह्यैन्दवीद्युधिः ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ओष्ठा मृतौन्नत्यधात्री त्वौषधम्बवरोगिणाम् औदार्यचञ्चुरौपेन्द्री त्वौ ग्रीह्यौमेयरूपिणी अम्बराद्धवहाम्बष्टाम्बरमालाम्बुजेक्षणा अम्बिकाम्बुमहायोनिरन्धो दान्धकहारिणी अंशुमालाह्यंशुमदीत्वङ्गीकृतषडानना अन्धतामिश्रहन्ध्रिय अन्धुरञ्जना ह्यञ्जनावधी कल्याणकारिणी काम्या कमलोत्पलगन्धिनी कुमद्वदी कमलिनी कान्धिकल्पितदायिनी काञ्जनाक्षी कामधेनुः कीर्तिकृत् क्लेशनाशिनी क्रतुश्रेष्ठा क्रदुफला कर्मबन्धविभेदिनी कमलाक्षीक्लमहरा कृशानुदपनद्युधिः करुणार्द्राजकल्याणी कलिकल्मशनाशिनी कामरूपा क्रियाशाक्रिकमलोत्पलमालिनी कूडस्था करुणाकान्ता कूर्मयाना कलावती कमला कल्पलतिका काली कलुषवैरिणी कमनीयजला कम्रा कपर्दिषु कपर्दगा कालकोडप्रशमनी कदम्बकुसुमप्रिया कालिन्दी केलिललिता कल्लोल कलकल्लोलमालि क्रांदलोकत्र खंडूकंडूतनय वत्सला खड़गिनी खड़गताराभा खगा खंडेन्दु खे खेलगामिनी खस्ता खंडेन्दुतिलक प्रि केचरी केचरी वन्द्याख्याधिख्यादिप्रदायिनी खण्डितप्रणताखौखा खलबुद्धिविनाशिनी खा, खातनैः कन्दसन्दोहा खड्गखड्वाङ्गखेडिनी खा, खरसन्तापशमनि खनिपीयूषपाधसां गङ्गा गन्धवधी गौरी गन्धर्वनगरप्रिया गम्भीराङ्गी गुणमयी गदातङ्गा गदिप्रिया गणनाथाम्बिकागीदा गद्यपद्यपरिष्ठुता गान्धारी गर्भशमनी गदिभ्रष्टगदिप्रदा गोमदी गुह्यविद्या गौ गोत्री गगनगामिनी गोत्रप्रवर्धिनी गुण्या गुणादिदा गुणाग्रणीः गुहाम्बिका गिरिसुधा गोविन्दाङ्घ्रिसमुद्भवा गुणनीयचरित्रा च चा। गायत्री गिरिशप्रिया गूढरूपा गुणवती गुर्वी गौरववर्धिनी ग्रहपीडा करा गुन्द्रा गरघ्नी गानवत्सला कर्महन्द्री कृतवती कृततुष्टिप्रदायिनी खण्डारवप्रिया होरा कौकविध्वंसकारिणी प्राणतुष्टिकरीकोषा खनानन्दा खनप्रिया कादुका खूर्णितजला हृष्टपातकसन्तधिः का खडकोटिप्रपीतापा खडिता शेषमङ्गला कृणावधी कृणिनिधिर्खस्मराखूकनादिनी खुसृणा पिञ्चरतनुर्खर्खरा खर्खरस्वना चन्द्रिका चन्द्रकान्ताम्बुश्चञ्चदापा चलद्विधिः चिन्मयी चितिरूपा च चा। चन्द्रायुधशतानना चाम्बे यलोचना चारुश्चार्वङ्गी चारुगामिनी चार्या चारित्रनिलया चित्रकृच्चित्ररूपिणी चम्बुश्चन्दनशुच्यम्बुश्चर्चनीया चिरस्थिरा चारुचम्पकमालाढ्या चमिता शेषदुष्कृता चिदाकाशवः चिन्त्या चञ्चर्चामरविजिता चोरिता शेषवृजिना चरिता शेषमण्डला चेदिताखिल पापौका चन्मग्नी चलहारिणी चन्नत्रिविष्टपतला चोडिता शेषबन्धना छुरितामृदथारौका चिन्नयिनाश्चन्दगामिनी छत्रीकृतमरालौका षडीकृदनिजामृता जाह्नवीज्या जगन्मादा जप्या जङ्खालवीचिका जया जनार्दनप्रीता च्युषणीया जगद्धिता जीवनं जीवनप्राणा जगज्येष्ठा जगन्मयी जीव जन्मि जन्मनि बर्हिणि जाड्यविध्वंसनकरी जगद्यो निर्जलाविला जगदानन्दजननी जलजा जलजेक्षणा जनलोचन पीयूषा जडात्तडविहारिणि जयन्ती जञ्चपूकग्नि जनितज्ञानविग्रहा छल्लरीवाद्यकुशलाच्छलच्छालचलावृता चिण्डी शवन्द्या छङ्कारिणी चरावती टी किशेषपातालाट्टङ्किकैनोद्रिपाटने टङ्कारनृत्यकलोला टीकनीयमहातटा डम्बरप्रभहाडीनराजहंसकुलाकुला डमड्डमरुहस्ता चडामरोक्तमहाण्डका ठौकिता शेषनिर्वाणाठक्कानादचलज्जला जननी ठनढुणितपातका तर्पणी तीर्थतीर्था तीर्थ च त्रिपधात्रिदशेश्वरी त्रिलोकगोप्त्री तोयेशी त्रैलोक्यपरिवन्दिता तापस्त्रितय संहर्त्री तेजो बलविवर्धिनी त्रिलक्ष्या तारणी तारा तारा पदिकरार्चिता त्रैलोक्यपावनी पुण्या तुष्टिदा तृष्णा तुष्टि तृष्णाच्छेत्री तीर्थमादा त्रिविक्रमपदोद्भवा तपोमयी तपोरूपा तपस्तो मः फलप्रदा त्रैलोक्यव्यापिनी तृप्ते तृप्ते कृतस्त्वरूपिणी त्रैलोक्यसुन्दरी तुर्या तुर्यादिदफलप्रदा त्रैलोक्यलक्ष्मीस्त्रिपदी तध्याप्तिमिरचन्द्रिका ते जोगर्भा तपस्तारा त्रिपुरारि शिरो गृहा त्रयीश्वरूपिणीतन्वी तपनां गजभिधिनुद तरिस्तरणिजामित्रं तर्पिताशेषपूर्वजा तुलाविरहिदातीव्रपापतूलतनूनपाद दारिद्र्यदमनीदक्षा दुष्प्रेक्षा दिव्यमण्डना दीक्षावली दुरावाप्या द्राक्षा मधुरवारिहृदर्शितानेककुतुका दुष्टदुर्जय दुःखहृद दैन्यहृ दुरितघ्नी च दानवारि पदाब्जजा दन्तशोकविषघ्नी च दारिता कौखसन्ततिः द्रुदा देवद्रुमच्छन्ना दुर्वाराघविकादिनी दमग्राह्या देवमादा देवलोकप्रदर्शिनी देवदेवप्रिया देवी दिक्पालपददायिनी दीर्घायुकारिणी दीर्घा दोग्ध्री दूषणवर्जिता दुग्धाम्बुवाहिनी दोह्या दिव्या दिव्यगतिप्रदा द्युनदी दीनशरणं देहि देहनिवारिणी द्राखीयसी दाखफन्द्री दिदपातकसन्तदिः दूरदेशान्तरचरी दुर्गमा देववलभा दुवृतग्नी दुह्या दयाधारा दयावी दुरा सदा दानशीला द्राणी द्रुहिणस्तु दैत्यन वंशुकर् दुर्बु दानसारादया साराद्या वा भूमिविहागिनी दृष्टा दृष्टफलप्राप्तिर्देवता वृन्दवन्दिदा दीर्घव्रता दीर्घदृष्टिर्दीप्ततोया दुरालभा दण्डयित्री दण्डनी दीर्दुष्टदण्डधरार्चिता दावार्चिर्द्रवद्रव्ययेधि दीनसन्तापमनी दात्री दवधु वैरिणी दरी विदारणपरा दांदजन प्रिया दिताद्रितड़ा दुर्गा दुर्गारण्यप्रचारिणी धर्मद्रवा धर्मधुरा धेनुर्धीरा धृधिर्ध्रुवा धेनु दानफलस्पर्शा मोक्षदा। धर्मोर्मि धुर्या धात्री धात्री विभूषणं धर्मिणी धर्मशीला च धन्वि कोडि कृता दृृपपरा ध्ये धावनी दूतकम धर्मारा धर्मसारा धनदा धनवर्धि धर्मर्म गुणच्चेत्री दत्ूरकुसुमिया धर्मेशी धर्म शास्त्रा धनधान्य सृद्धि धर्मलभ्या धर्मजला धर्मप्रसवधर्मिणी ध्यानगम्यस्वरूपा च धरणी धातृपूजिता धूर्धूर्जडिजडासंस्था धन्याधीर्धारणावधी नन्दा नंदिनी नन्दिनी नुन्नपातका निषिद्ध विघ्ननिचया निजानन्दप्रकाशिनी नभोङ्गणचरी ना नूदीर्नम्या नारायणीनुता निर्मला निर्मलाख्याना नाशिनी तापसम्पदां नियदा नित्यसुखदा नानाश्चर्यमहानिधिः नदी नद सरोमादा नायिका नाकदीर्घिका नष्टोद्धरणधीरा ना च नन्दना नन्ददायिनी निर्निक्लाशभुवना निःसङ्गा निरुपद्रवा निरालम्बा निष्प्रपञ्चा निर्नाशिदमहामला निर्मल ज्ञान जननीशेष प्राणितापृत नमस्कार्या निरंजना, निष्ठावी निरातंगा निरवद्या निर्ले निश्चलामरीहाधगा नन्दृंगिगणस्तु नगात्मजा नानंदा नगात्म्योहा नाकनदी निरयानवीनौ्य पुण्यगर्भा पुण्या पुण्यतरंगिणी पृथु पृधु फला पूर्णा प्रणतार्ति प्रभंजनी प्राणदाप्राणिजननी प्राणेशी प्राणरूपिणि पद्मालया पराशक्तिः पुरजित् परमप्रिया परापरफलप्राप्तिः पावनी च पयस्विनी परानन्दा प्रकृष्टार्था प्रतिष्ठा पालिनी परा पुराणपठिता प्रीता प्रणवाक्षररूपिणी पार्वती प्रेमसम्पन्ना पशुपाश्च विमोचनी परमात्मस्वरूपा च परब्रह्मप्रकाशिनी परमानन्दनिष्यन्ता प्रायश्चित्तस्वरूपिणी पानीयरूपनिर्वाणा परित्राणपरायणा पापेन्धनदवज्वाला पापरिः पापनामनुद परमैश्वर्यजननी प्रज्ञा प्राज्ञा परापरा परा, परा लक्ष्मी पद्माक्षी प्रसन्न रूपा, प्रत्यक्ष देवता, प्रसन्नूप प्रणिधि पूजा प्रत्यक्षता पिना कीीदा परिकम्डलु पद्म्य प्रसूद पदमालिनी परिदुष्टिकरी पद्या पूर्ति प्रभावति पुनापि पापपर्वदनाशिनी पापपर्वतनाशिनी फलिनी फलहस्ता च फुल्लाम्बुजविलोचना फालितैनो महाक्षेत्रा भणिलोकविभूषणं फेनच्छलप्रणुन्नयिना फुल्लकैरवगन्धिनी फेनिलाच्चाम्बुद्धाराभा फडुच्चाडितपातका फाणितस्वादुसलिला फाण्डपभ्यजलाविला विश्वमाता च विश्वेशी ब्रह्मण्या ब्रह्मकृब्राह्मी ब्रह्मिष्ठा विमलोदका विभावरी च विरजा विक्रान्तानेकविष्टपा विश्वमित्रं विष्णुपदी वैष्णवी वैष्णवप्रिया विरूपाक्षप्रियकरी विभूतिर्विश्वतोमुखी विपाशा वै बुद्धिवेद्या वेदाक्षररस्रवा विद्यावेगवदीवन्द्या बृंहणी ब्रह्मवादिनी वरदा विप्रकृष्टा च वरिष्ठा च विशोधनी विद्याधरी विशोका च वयोवृन्दनिषेविता बहुदका बलवती व्योमस्था विबुधप्रिया वाणी वेदवतीवित्ता ब्रह्मविद्यातरङ्गिणी ब्रह्माण्डकोटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणि ब्रह्मेश विष्णुरूपा च बुद्धिर्विभवर्धिनी विलासि व्यापिनी च वृषारणिः वृषाङ्गमौलिनिलया विपन्नार्तिप्रभञ्जनी विनीता विनता ब्रध्नतनया विनयान्विता विपञ्जी वाद्यकुशला वेणुश्रुतिविचक्षणा वर्चस्करी बलकरी बलोन्मूलितकल्मषा विप्मा विकतातंगा विकपरीवर्जिता वृष्टिकर् वृष्टिजला विधिबंधना व्रत रूप बहु विघ्न विनाश वसुधारा वसुमी विचिंगी विभासु विजया विश्वबीचं च वामदेवी वरप्रदा वृषाश्रिता विषघ्नी च विज्ञानोर्म्यांशुमालिनी भव्या भगवदी भद्रा भवानी भूदभाविनी। भूदधात्री भयहरा भक्त भुक्लिमुक्लिप्रदाभ्येषी भक्तस्वर्गापवर्गदा भागीरथी भानुमदी भाग्यं भोगवदी भृतिः तवप्रिया प्रिया भवद्वेष्ट्री भूदिदा भूदिभूषणा बाललोचनभावज्ञा भूदभव्यभवत् प्रभुः भ्रान्तिज्ञानप्रशमनी भिन्नब्रह्माण्डमण्डपा भूरिदा भक्तसुलभा भाग्यवदृष्टिगोचरी भञ्जितोपप्लवकुला भक्ष्य भोज्यसुखप्रदा भिक्षणीया भिक्षुमादा भावा भावस्वरूपिणी मन्दाकिनी महानन्दा मादारङ्गिणी महोदया मधुमती महापुण्या मुदाकरी मुनिस्तुदा मोहकन्द्री महातीर्था मधुस्रवा माधवी मानिनी मनिनी मन मनोरथपधाति मोक्षदा मदिदा मुख्या महाभाग्य जनाश्रिता महावेगवीध्या महा, महा प्रभावा महदी मीन चंचल लोचना, महाकारुण्यसम्पूर्णा महर्भिश्च महोत्पला मूर्तिमन्मुक्तिरमणी मणिमाणिक्यभूषणा मुक्ता कदापनेपथ्या मनोनयनन्दिनी महापादकराशिघ्नी महादेवार्थहारिणी महोर्मिमालिनीमुक्ता महादेवी मनोन्मनी महापुण्योदयप्राप्या मायातिमिरचन्द्रिका महाविद्या महामाया महामेधा महौषधम् मालाधरी महोपाया महोरगविभूषणा महामोहप्रशमनी महामङ्गलमङ्गलं मार्तण्डमण्डलचरी महालक्ष्मीर्मदोच्छिदा यशस्विनी यशोदा च योग्या योगसिद्धिप्रदायाज्ञा यज्ञेश परिपूरिता यज्ञेशीयज्ञफलदा यजनीया यशस्करी यमिसेव्या योगयो निर्योगिनी युक्तबुद्धिदा योगज्ञानप्रदायुक्ता यमाद्याष्टाङ्गयोगयुग यमलोक यमलोकनिवारिणी यादा, यादा प्रशमनी नानाम यादप्रशमनी यादनानामकृन्दनी यामिनीशहिमाच्छोदा युगधर्मविवर्जिता रेवीरधि कृम्या रत्नगर्भा रमारतिः रत्नाकरप्रेमपात्रं रसज्ञा रसरूपिणी रत्नप्रासादगर्भा च रमणीयतरङ्गिणी रत्नार्ची रुद्ररमणि रागद्वेषविनाशिनी रमा रामा रम्यरूपा रोगी जीवानुरूपिणी रुचिकृ रोजनी रम्या रुचिरारोगहारिणी राजहंसारत्नवती राजकल्लोलराचिका रामणीयकरेखा च रुजारीरोगरोषिणी राकारङ्गार्तिशमनी रम्यारोलम्बराविणी रागिणी रञ्जितशिवा रूपलावण्यशेवधिः लोकप्रसूर्लोकवन्द्या लोलोलमालिनी लीलावती लोकभूमिर्लोकलोचनचन्द्रिका लेखस्रवन्दी लडभा लघुवेगा लघुत्वहृद ला तरंगस्ता ललिता लयभंगिना लोकबंधुर्लोकधात्री लोकोत्तर गुणोर्जिता लोकत्रयिता लोका लक्ष्मीर्लक्षणलक्षिता लीला लक्षित निर्वा लाण्यामिणी वैश्वानरी वास व्यपरीहारीणी वासुदेवाघ्रि रेणुघ् वज्रिव्र निवार शांदि शुभफला वल्लभा, शूलिनी शैशववया शीतला मृदवाहिनी शोभावदी शीलवदी शोषिता शेष किल्बिषा शरण्या शिवदाशिष्ठा शरजन्मप्रसूशिवा शक्लिशशाङ्गविमला शमनस्वश्रुसम्मदा शमाशमनमार्गग्निशितिकण्ठमहाप्रिया शुचि शुचिकरी शशशायि पदोद्भवा श्रीनिवासश्रुतिश्रद्धा श्रीमती श्रीशुभव्रदा शुद्धविद्या शुभवर्ता श्रुतानन्दा श्रुतिस्तुतिः शिवेतरग्नी शबरी शाम्बरी रूपधारिणी श्मशानशोधनी शान्दा शश्वच्छदधृदि स्तुता शालिनी शालिशोभाढ्या शिखिवाहनगर्भभृद शंसनीयचरित्रा च शादिता शेषपातका षड्गुणैश्वर्यसम्पन्ना षडङ्गश्रुतिरूपिणी षड्ढताहारिसलिला त्यायन्नदनदीशदा सरिद्वाराजसुरसा सुप्रभा सुरदीर्घिका स्वसिन्धुः सर्वदुःख्नि सर्वव्याधिमहौषधम् सेव्यासिद्धिः सदी सूक्तिस्कन्दसूश्च सरस्वती संपत्तरंगिणी स्तुस्ताणुमौलृताल स्थर्यदा सुभगा सौख्या सौभाग्य दाईनी स्वर्गन्रेणि का स्वाहा सुधा स्वाहा जला समुद्रू स्वर्गियापकवरी स्मृताकहारिणी सीता संसाराब्धितरण्डिका सौभाग्यसुन्दरी सन्ध्या सर्वसारसमन्विता हरप्रिया हृषिकेशी हंसरूपा हिरण्मयी हृदा क संखा केलाकगर्वहृद क्षेमदा क्षालिता कौखा क्षुद्रविद्राविणीक्षमा गंगेदि नाम साहस्रं गङ्गाया कलशोद्भव कीर्तयित्वा नरः सम्यग् गङ्गास्नानफलं लभेद सर्वपापप्रशमनं सर्वविघ्नविनाशनं सर्वस्तोत्र जपात् श्रेष्ठं सर्वपावनपावनं श्रद्धयाभीष्टफलदं चतुर्वर्गसमृद्धिकृद सकृजपादवाप्नो दिह्येक्रदुफलं मुने सर्वतीर्थेषु यस्नातः सर्वयज्ञेषु दीक्षितः तस्य यत्फलमुद्दिष्टं त्रिकालपठना च तत् सर्वव्रतेषु यत् पुण्यं सम्यक् चीर्णेषु वाडव तत्फलं समवाप्नोदित्रिसन्ध्यं नियतः पठन् स्नानकाले पठेद्यस्तु यत्र कुत्र जलाशये तत्र सन्निहिदानूनं गङ्गात्रिपधगामुने श्रेयोर्थी लभते श्रेयो धनार्थी लभते धनं कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात। वर्षं त्रिकालपठनाश्रद्धया शुचिमानसः ऋतुकालाभिगमनाथपुत्रः पुत्रवान् भवेत् न कालमरणं तस्य नाग्निचोराहि साध्वस्सं नाम्नां सहस्रं गंगाया योज्यपे जपेच्छ्रद्धया मुने गङ्गा नामसहस्रं तु जप्त्वा ग्रामान्तरं व्रजेद निर्विघ्नो गेखमाविषेद तिधि वारर्क्षयोगानां न दोषः यदा जप्त्वा व्रजेदेधस्तोत्रं ग्रामान्तरं नरः आयुरारोग्यजननं सर्वोपद्रवनाशनं सर्वसिद्धिकरं पुंसां गङ्गानाम सहस्रकं जन्मान्तरसहस्रेषु यत्पापं सम्यगर्जितं गङ्गानां सहस्रस्य जपनात्तत्क्षयं व्रजेद ब्रह्मघ्नो मध्यभस्वर्णस्तेयी च गुरुतल्पकः तत्संयोगी भ्रूणहन्ता मादृहापि दृहा मुने विश्वासखादी गरधकृदघ्नो मित्रखादकः अग्निदो गोवधकरो गुरुद्रव्यापहारकः महापातकयुक्तोऽपि संयुक्तोऽप्युपपादकैः मुच्यते श्रद्धया जप्त्वा गङ्गानाम सहस्रतम् आधिव्याधिपरिक्षिप्तो घोरतापपरिप्लुदः मुच्य सर्वुखेभ्यव सुकर्तनावत्सरेण युक्ता पढ़न भक्तिपरायण अभीसिता ले सिंप प्र मुच्य दे संशयाष्टचित धर्मविद्वेषिणोऽपि च दाम्भिकस्यापि हिंस्रस्य चेदो धर्मपरं भवेद् वर्णाश्रमपथीनस्तु कामक्रोधविवर्जितः यद्फलं लभते ज्ञानी तदाप्नोत्यस्य कीर्तनाद् गायत्र्ययुदजप्येन यद्फलं समुपार्जितं सकृत्पठनतः सम्यक्तदशे श्रमवाप्नुयाद गां दत्त्वा वेदविदुषे यद्भलं लभते कृति तत्पुण्यं सम्यगाख्यादं स्तव राज सकृजपाद गुरुशुश्रोषणम् कुर्वन् यावज्जीवम् नरोत्तमः यत्पुण्यमर्जयेत्तद्भाग्वर्षम् त्रिशवणम् जपन् वेदपारायणात्पुण्यम् यदत्र परिपठ्यते नलभदे त्रिसन्ध्यम् परिकीर्तनात् गङ्गायास्तव राजस्य प्रत्यहम् परिशीलनाद शिवभक्तिमवाप्नोति विष्णु भक्तो धवा भवेद यकीर्तयेदनुदिनं गङ्गानामसहस्रकं तत्समीपे सहचरी गंगादेवी सदा भवेद सर्वत्र पूज्यो भवति सर्वत्र विजयी भवेद सर्वत्र सुखमाप्नोति जाह्नवीस्तोत्रपाठतः सदा चारी स विज्ञेयः स शुचिस्तु सदैव हि कृतः कीर्तयेद्य इमां स्तुतिम् तस्मिंस्तृप्ते भवे तृप्ता जाह्नवी नात्र संशयः तस्मा सर्वप्रयत्नेन गङ्गाभक्तं समर्चयेद स्तवराजमिमं गाङ्गं शृणुयाद्यश्च वैपठेद श्रावयेद तद्भक्तान् दम्भलो भविवर्जितः मुच्यते त्रिविद्धैः पापैर्मनोवाकाय सम्भवैः क्षणान्निष् पापतामेदि पितॄणां च प्रियो भवेद सर्वदेवप्रियश्चापि सर्वर्षिगणसम्मतः अन्ते विमानमारुह्यं दिव्यस्त्रीशतसंवृदः दिव्याभरणसम्पन्नो दिव्यभोगसमन्विदः नन्दनादिवने स्वैरम् देववत्स प्रमोदते दे। भुज्यमानेषु विप्रेषु श्राद्धकाले विशेषतः जपन्निदम् महास्तोत्रम् पितॄणाम् तृप्तिकारकम् यावन्दि तत्र सिग्धानि यावन्दोऽम्बुकणाः स्थिताः तावन्द्येव हि वर्षाणि मोदन्ते स्वपितामहाः यथा प्रीणन्ति पितरो प्रीणन्ति गङ्गायां पिण्डदानदः तथैव तृप्नुहुश्रद्धे स्तवस्यानुसंश्रवाद यस्तोत्रं गृहे यस्य लिखितं परिपूज्यते तत्र नास्ति, नास्ुचि तद्भवनम सदा अगस्ते किं बहूकृ निश्चित संशय नाकर्तव्य सन्देधरी फलम नी ये स्त्रो मंद्रजान्यनेश तवन्दी स्तवराज से गाङ्गेयस्य समानिना यावज्जन्म जपेद्यस्तु नाम्ना मेदसहस्रकं स कीकडेष्वपि मृतो न पुनर्गर्भमाविषेद नित्यं नियमवानेतद्यो जपे स्तोत्रमुत्तमम् अन्यत्रापि विपन्नः गङ्गातीरे मृतो भवेद येतस्तोत्र वरं रम्यं पुरा पिनाकिना विष्णवे निजभक्ताय मुक्ति बीजाक्षरास्पदं गङ्गास्नानप्रतिनिधिस्तोत्र मेदन्मयेरिदं सिस्ना सूर्जाह्नवीम् तस्मादेधस्तोत्रम् जपेत्सुधीः इति श्रीस्कन्दपुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्धैकाशीखण्डे पूर्वार्थे गङ्गासहस्रनामकथनं नामैको न त्रिंशत्तमोऽध्यायः